श्रीमद्भागवत महापुराणं चतुर्षस्कन्द अथ दशमोऽध्यायः मैत्रीवाच प्रजापतेर्दुहितरं शुशुमारस्य वै ध्रुव उपये मे भ्रमिं नाम तस्तुतौ कल्पवत्सरौ लीलायामपि भार्यायां वायोपद्रां महाबलः पुत्रमुत्कलनामानं योषिद्रत्नमजि जनत उत्तमस्त्वक् कृतो द्वाहो बलीयसां हत पुण्यजनेनादौ नाद्रौ तन्मातास्य गतिं गताम् ध्रुव भ्रातृमथं श्रुत्वा कोपामरसुचार्पितः जैत्यं चन्दनमास्थाय गतपुण्यजलालयं गत्व देतिं दिसं राजा ददर्सहिंवद्रोण्यां पुरीं गुह्यकशङ्कुलां दद्मौ शङ्खो बृहद्बाहूखं दिशस्यानुनादयन् यो नोद्विग्नादिश्छत्तरुपदेव्यो च सन्धिशम् ततो बलिन उपदेव महाभटाः असहन्तसन्निनादम् अभि पेतुरुदायुधाः हतानापततो वीर उग्रधन्वा महारथ एकैकं युगपन् सर्वान् अहनन् बाणे त्रिभिरत्रिभिः स्रिफी। ते वै ललाटलग्नैस्तैरिषुभिः सर्वे वै मत्वा नृस्तमात्मानम् आसन्सन् कर्म तस्य तन् तेऽपि चामोमृष्यन्त पादस्पर्शा विमूरकाः शरैरविध्यनिं युग्पदद्विगुणं प्रति केशवः ततः परिघनिस्त्रिंशैः प्राशशूलपरश्वदै सक्तृष्टिभिं भुम्भुषुण्डीभिर्चिद्रवाजै शरैरपि अभ्यवर्सन् प्रकुपितदा शरथं सह सारथिम् इक्षन्तस्तत्प्रकीं प्रतीकर्तुम् अयुतानि त्रयोदश औत्तानपादि स तदा सत्रवर्षेण भूरिना न उपादिश्चच्छन्न आसारेण यथा गिरिः हा हाकारस्तदैवासीन् सिद्धानां दिवि पश्यताम् हतोऽयं मानवः सूर्यो मग्नपुण्यजनार्णवे नन्दस्सूयाति धारे सुयकाशी स्वथो मृधे उदतिष्ठद्रथर तस्य निहारादिभास्करः धनुःस्फूर्जिञ्जयन् दिव्यं दिशतां केतमुद्महन् अस्त्रौखं व्यथं बाणे घनालीकमिवालिलः तस्य चे चाप निर्मुक्ता आया नाम विवशो सिग्मा गिरिन शनयो यथां भल्लैः संच्छद्यमानानां शिरोभिश्चारुकुण्डलैः पुरोभिर्हें तालाभये दोर्भिर्वलैर्वल्गुभि हारकेयोर्मुकुटैरुष्णीशै स महाधनैः आश्रित्तास्तारणभुवो रेजुर्वीरमनोहराः हतावशिष्टा इतरे रणजिराद् रक्षोगुणा क्षत्रियवर्यशायकैः प्रायो विविग्णावयवां विद्रोध्रुवोरिन्दृगेन्द्रविक्रीडितयुतपायव अपश्यमान सतदाततायिनं महामृति कञ्चन मानवोत्तमः पुरीं दि दीक्षन्नपि नाविशद्विषां न मायिनां जनः इति ब्रुमन् चित्रथ सुसारथिं यत्त परे सां प्रतियोगशङ्कितः सुस्रावशब्दं जलधीरिवेरितं नभस्वतो दिक्षु रजोन्वदिश्यत तळेनाच्छादितं व्योमघनालीकेन सर्वतः विस्फुरन्तलिता दिक्षुतासि यस्तन्तने त्वलूनाम् बभृषोर्न्रुधिरोगान् दिग्पूय विन्मुद्रमेदशापेतुर्गङ्गनादस्य कबन्धान्यक्रतो नख ततः खेदश्चिरं गिरिपेतु सर्वतो दिशं गदा परिघनिस्त्रीश मुशलाशासुवर्षिणः अह अभ्यधामन् गजा मत्ता सिंहव्याघ्राचयौ तपस समुद्राऊर्मभिर्भिमाप्लावयन् सर्वतो भुवं। आससाद महाराज कल्पान्तयुभीषणः एवं विधान्यलेकानि त्रासनान्यमनस्विनां सतिग्मं गतय आसुर्या मायाशुराः धृगेपयुक्तामसुरैस्तां मायामति दुस्तरां निशाम्य तस्य मुनिय शमाशंसनसमागता औत्तानपादे भगवास्तव सार्गसन्ना देव चिनोत्वमनं तार्तिहरो विपक्षान् जन्नामधेयम् अभिधायि सं श्रीमद्भागुतै महाबुराळे पुरं चां चैतायां चतुर्स्कन्धे दशमोऽध्यायः